अथ सप्तदशोऽध्यायः अर्जुन उवाच ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः तेषाम् निष्ठातुका कृष्ण सत्वमाहोरजस्तमः श्रीभगवानुवाच त्रिविधा भवति श्रद्धा देहिनाम् सा स्वभावज राजसि चैव तामसी चेति ताम् शृणु सत्त्वानुरूपासरूपस्य श्रद्धा भवति भारत श्रद्धामयोऽयम् पुरुषः यो यच्छः स एव यजन्ते सात्त्विका देवा यक्षरक्षांसि राजसाः प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः घोरम् तप्यन्ते ये तपो जनाः तम्भाहङ्कारसंयुक्ताः कामरागबलान्विताः कर्षयन्तः भूतग्राममचेतसह भूतग्राममचेतसः मां तान्विद्या सुरनिश्चया आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः यज्ञस्तपस्तता दानम् तेषाम् सुखप्रीतिविवर्धनाः रस्यास्निग्धा स्थिराहृद्याः आहारा तीक्ष्णरोक्षविदाहिनः आहाराराजसस्येष्ट दुःखशोकामयप्रदाः यातयामम् गतरसम् पूतिपर्युषितम् च यत् उच्छिष्टमपि चामेध्यम् विधिदृष्टो य इज्यते यष्टव्यमेवेति मनः समाधाय च सात्त्विकः अभिसन्दाय तु फलम् दम्भार्थमपि चैव यत् इज्यते भरत श्रेष्ठ तञयज्ञम् विद्धिराजसम् विधिहीनमसृष्टान्नम् मन्त्रहीनमदक्षिणम् श्रद्धाविरहितम् यज्ञम् तामसं परिचक्षते देवद्विजगुरुप्राज्ञ पूजनम् शौचमार्जवम् ब्रह्मचर्यमहिंसा च शारीरम् तप उच्यते अनुद्वेगकरम् वाक्यं सत्यं प्रियहितम् च यत् स्वाध्यायाभ्यसनम् चैव वाङ्मयम् तप उच्यते तपोमानसमुच्यते श्रद्धया परया तप्तम् तपस्तत्त्रिविधम् नरैः अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकम् परिचक्षते सत्कारमानपूजार्थम् तपोदम्भेन चैवयत् क्रियते तदिह प्रोक्तं। राजसं राजसञ्चलमध्रुवम् मूढग्राहेणात्मनो यत् पीडया क्रियते तपः परस्योत्सादनार्थम् वा तत्तामसमुदाहृतम् दातव्यमिति यद्दानम् दीयतेपकारिणे देशे काले तान सात्क स्मृत यु प्रत्युपकाराथ मुद्द वा पुनः दीयसे परिक्लिष्टं। तद्दानम् राजसंस्मृतम् अदेशकाले यद्दानम् अपात्रेभ्यश्च दीयते असत्कृतमवज्ञातम् तत्तामसमुदाहृतम् ओम् तत्सदिति निर्देशः ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा तस्मात् ओम् इत्युदाहृत्य यज्ञदानतपक्रियाः प्रवर्तन्ते विधानोक्ताः सततम् ब्रह्मवादिना सदनिस फल य्रिया दानक्रियाध क्रीय मोक्षकांक्षि सद्भावुज्य प्रशस्ते कर्मणि तथा तच्छब्दः पार्थयुज्यते यज्ञो तपसिदाने च स्थितिः सदिति चोच्यते कर्म चैव दतद्धीयम् सदित्येवाभिधीयते अश्रद्धयाहुतम् दत्तम् असदित्युच्यते पार्थ न च इह ॐ तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायाम् योगशास्त्रे श्रीकृष्णार्जुनसंवादे श्रद्धात्रयविभागयोगो नाम सप्तदशोऽध्यायः